गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् एय्टीन् क उवाच युद्धावेशदुराधर्षः उपविष्टो महासने स ददा वीरमुख्यांस्तानुपविष्टानब्रवीद सिन्धुरुवाच गदौ मम प्रधानौ तौ त्रैलोक्याकर्षणक्षमौ न तादृश्योऽस्ति वीरोऽत्र यो मे हन्याद्रिपुं बलाद नैतादृश्यौ बुद्धिमन्तौ पराक्रमजयैषिणौ वीरावोचुस्तद सिन्धुं मा चिन्तां कुरु सर्वथा यावद्द्वयं प्राणवन्तो लघुकृत्य उपस्थिते किमर्थं चिन्ताकुलतां तावद्वजसि दैत्यराड् स्वापं कुरु महाभागपर्यङ्गे पुष्यसंस्तरे कृतान्तस्ताडितोयाभ्यां तयोकस्माद्भयं भवेद् एवमुक्त्वा कलसिन्धुं विकलश्च महाबलौ चालकौ तस्य दैत्यस्य निर्यादौ युद्धदुर्मदौ नानायुद्धेषु कुशलौ नानायुधधरावुभौ नानाभूषणवस्त्राढ्यौ नानासेनासमन्वितौ नानागर्जनदो व्योमचक्रदुर्नादसंयुतम् देवकोडिनिषन्धारौ असङ्ख्यवाहिनीयुतौ ययुस्तत्पुरदो वीरासिन्धुरारुणमस्तकाः शास्त्रधरा अग्निशस्त्रधरा मुक्तकेशपाशास्सचन्तनाः लश्छत्रधरा सर्वे यममत्तुमिवोद्यताः तद करिखडा यादानाधादुविचित्रिताः अधिष्ठादा महामात्रैर्नानाभूषा विराजिताः तीक्ष्णदन्ताः सिन्धुरिदाखण्डानादनिनादिताः तदश्वसादिनो यादास्तनुत्राणविराजिता धनुर्बाणधरा सर्वे रसच्छत्र अनेकयुद्धसम्भाररथा यादास्ततः परम् अनेकवीरसंयोगदानासूदविराजिताः एवं तौ चालकौ यातौ रणस्थानं मृषान्वितौ ददृशादे मयूरे शमाशी विषभुजिस्थितं षडाननादिभिर्वीरैरन्यैन्यश्च परिवारिदं दृष्ट्वा तैस्तुतयोः सेनाखोरा सा चतुरङ्गिणी असङ्ख्यादम् बलं तस्य समायादं विचित्रितां प्रेषितो देवप्रवरै दूदो निधिविशारदः ज्ञात्वा वृत्तान्तमायातः स जगादसुरान् प्रदि दूद उवाच कलश्च विकलश्चैव नानासेनाः समायुधौ जेतुं समायादौ नानायुद्धविशारदौ ताभ्यां युद्धाय सम्प्राप्तौ पुष्पदन्तवृषावुभौ धनुषी सज्जतां नीत्वा षष्ट्या बाणैरविद्यदां दैत्यौ बाणान्निवार्येव तावुभौ बाणवृष्टिभिः चादितौ शरखादेन देवसैनिकान् कलस्य खड्गं खड्गेन बिभेदसमहावृषः सैन्यमादाय तस्याशु खड्गं चित्वा न्यपादयद विकलस्य पुष्पदन्तो धनुश्चिच्छेदसायकैः ततस्तौ मल्लयुद्धेन परस्परमयुध्यताम् ते सेने युद्धतां तत्र नानाशस्त्रास्त्रपत्रिभिः मायाभिर्विविधाभिश्च परस्परजयेच्छया ततः पपालदैत्यानां सेनाशस्त्रार्धिदं वृशं केऽपि देवापृष्ठलग्ना मारयन्त्यसुरांश्च तान् पादादेन निहदा दैत्यसेना दैत्यसेनाचरा नराः मृताशृक्प्रवहा तत्र भीरु भीदिदा वाहिनीभिरुभिदिदा सम्प्रवृत्ता महाघोरा भूतपक्षिप्रमोदिनी ततो वेगात्समुड्डीयकलश्च विकलश्चः श अत्र वृष्टिमहोग्रां तौ चक्रतुर्युद्धदुर्मदौ तयाहदा देवसेनास्रवद्रक्तापपालः तदो वृषो हनसेनां शृङ्गाभ्यां च तयोर्भृश्यं लत्ताभिश्च जखनाशु भूत्कारेणपादयद पुच्छाकादेन कांश्चिच्च चूर्णयामास दैत्यपान् एवं तेन ह दा आहाकारो महानासीद् दैत्याम्ना तत्र नश्यदां तदोदिबलिनौ वीरौकलश्च विकलश्चः जगर्जतुरुभौ रोषाद्गर्जयन्तौ दिशो दश नितुस्तौ वृषभं किं त्वं युध्यसि नौ पुरः तृणादनेषु शक्तस्त्वं तृणरूपोऽसि साम्प्रतं दध्रादयवमुक्त्वा तौ तस्य शृङ्गे महाबलौ विकृष्य निन्यभौ स्वसेनां चतुरङ्गिणीं तं मोचिदम्बुष्पदन्तोऽभियौ सहसा जवाद ततस्तं विकलो लक्ताप्रहारैपादयन् भुवि ननार्दवाद्यघोषेण ना हर्षनिर्भरमानसः समूर्च्छिदो मुहूर्तात्तु संज्ञां प्रापदनातुरः ततो योद्धुं समायादौ वीरभद्रषडाननौ कलःपर्वतः खादेन शतधान्यपदद्भुवि वीरभद्रस्तु विकलं तलखातादपातयत दृष्ट्वा स्कन्धेन निहतं कलं दैत्यं महाद्रिणा तदो ययुस्वशिबिरं गणास्ते जयशालिनः तद शास्त्र शास्त्रहदा के जिज्जिवन्दो गण्डकीं नाना सेना नानासेनायुधकलः विकलस्दो रोषावीरभद्रादिगण गे शिविरंगस् जयशालिनगणेशखे कल विकलवधो नाषाद्याय ओं